ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायम् 34 शिवलोकान्तरकथनम् अगस्त्य उवाच षोडशावरणं चक्रं किम् तद्रुद्राधिदैवतं तत्र स्थिताश्च रुद्राकेकेन नाम्ना प्रकीर्तिताः केष्वावरणबिम्बेषु किन्नामानो वसन्ति ते यौगिकं रौढिकं नाम तेषां ब्रूहि कृपानिथे हयग्रीव उवाच तत्र रुद्रालय रुद्रालयः प्रोक्तो मुक्ताजालकनिर्मितः पञ्चयोजनविस्तारस्तत् संख्यामशोभितोडशरण मध्यपीठमनोहर मद्यपीठे महारुद्रोज्ज्वलमुस्त्रीलोचन सर्वदा वर्तते मुने त्रिकोणे कथिता रुद्रास्त्रय खडोद्भवा, खडोद्भव हिरण्यबाहुसेनानीर्दिशाम्बदिरथा परः वृक्षाश्च हरिकेशाश्च तथा पशुपतिः परः षष्टिञ्जरस्त्विषीमांश्च पदीनां पदिरेव च ये दे षड्कोणघा किं च विव्याध्यन्नपदिश्चैव हरिकेशोपवीतिनौ पुष्टानां पदिरप्यन्यो भवो हेदिस्तथैव च दशपत्रे त्वावरणे प्रथमो जगतां रुद्रात रुद्रातताविनक्षत्रपदिसूतस्तथापरः अहं त्वन्यो वनपदी रोहितस्तपतिस्तथा वृक्षाणां पदिरप्यन्यश्चैदे सज्जसरासनाः मन्त्रीजवाणिजश्चैव तथा कक्षपतिः परः भवन्तिस्तु चतुर्धस्यात्पञ्चमो वारि वस्ततः ओषधीनां पदिश्चैव षष्ठकलशसम्भव उच्चैर्कोषाक्रन्दयन्तौ पदीनां च पदिस्तथा कृष्णवीतश्च धावंश्च सत्वानां पदिरेव च ये ते द्वादशपत्रस्ताः पञ्चमावरणस्थिताः सहमानश्च निर्व्याधिरव्याधीनां पदिस्तथा ककुभश्च निषङ्गीचस्तेनानां च पतिस्तथा निचेरुश्चेदि विज्ञेया षष्ठावरणदेवताः अधः परिचरोरण्यः पथि किं च सृकाविशः जिकां सदो मुष्णतां च पधयकुम्भसम्भवा असीमन्तश्च सुप्राज्ञस्तथा नक्तञ्चरो मुने प्रकृतीनां पदिश्चैव उष्णीषी गिरेश्चरः कुलुञ्जानां पदिश्चैवेषुमन्धकलशोद्भव धन्वाविदश्चात्तन्वानप्रदिपूर्वदधानकाः आयच्छद षोडशैदे षोडशारनिवासिनः विसृजन्तस्तथास्यन्दो विध्यन्तश्चापि सिन्धुप आसीनाश्च शयनाश्च यन्दो जाग्रद एव च तिष्ठन्तश्चैव धावन्तस्सभ्याश्चैव समाधिपाः अश्वाश्चैवाश्वपदय अव्याधिन्यस्तथैव च विविध्यन्तो गणाध्यक्षा बृहन्दो विन्ध्यमर्दन घृत्सश्चाष्टादशविथा देवता अष्टमावृतौ अथ गृत्साधिपतयो व्राता व्राताधिपस्तथा गणाश्च गणपाश्चैव विश्वरूपा विरूपकाहा महान्तः क्षुल्लकाश्चैव रथिनश्चारथाः परे रथाश्च रथपत्याख्याः रधा सेनाः सेनान्य एव च क्षतारसङ्ग्रहीतारस्तक्षाणो रथकारकाः कुलाल्चे रुद्रास्ते नवमृति देवता पुंजिष्ठ निषादास्कृद धन्वकारा मृगय वश्वा नश्वाश्वो भवद्रो ठोद भव सर्वः पशुपतिर्नीलग्रीवश्च क्षितिकण्टकः कपर्दीव्युक्तकेशश्च सहस्राक्षस्तथा परः सदधन्वाच गिरिशिपिविष्टश्च कुम्भज मेधुष्टम इति प्रोक्ता रुद्रा दशमशालगाः अधैकादशचक्रस्थायिषु मध्रस्ववामनाः बृहंश्च वर्षीयांश्चैव वृद्धसमृद्धिना सह अग्र्यः प्रथम आशुश्चाजिरोऽन्यशीघ्र शिभ्यकौ ऊर्म्या वस्वन्यरुद्रौ च श्रोतस्यो दिव्य एव च मध्यमश्चावगम्यश्च जघन्यश्च खडोद्भव चतुर्विंशतिराख्याता येते रुद्रा महाबलाः अध सौम्यरुद्रः प्रदिसर्पकयाम्यकौ क्षेम्यो वोचवकल्यश्च ततश्लोक्यावसाय्यकौ वह्कक्ष्यश्रवश्चैव ततोऽन्यस्तु प्रतिश्रवः आशुश्रेणश्चाशुरथशूरश्च तपसां अवभिन्दश्च वर्मी वरूथी बिल्मिना सह कवची च चा श्रुतश्चैव सेनोदुन्दुभ्य एव च आहनन्यश्च धृष्णुश्च ते च षड्विंशतिस्मृताः द्वादशवरणस्तास्ते महाकाया महाबलाः प्रभृशाश्चैव दूताश्च प्रसिताश्च निषङ्गिणः अन्यस्त्षुधि मानन्यस्तक्षणेषुश्च तथायुधि स्वायुधश्च सुधन्वाच स्तुत्यः पत्यश्च कुम्भज काप्यो नाट्यस्तधा सूथसरस्यो विन्ध्यमर्दन ततश्चान्यो नाधमानो वेश्यन्धकुप्य एव अवधवर्ष्यो वर्ष्यश्च मेध्यो विद्युत्य एव ध्रातप्यौ तथा वाद्यौ रेश्म्यश्चैव तथा परः वास्तव्यो वास्तुपश्चैव सोमश्चेदि महाबलाः त्रयोदशा त्रयोदश वरणगाच्छ्रुनुरुद्रांश्च तान्मुने रुद्रस्ताम्रारुणशङ्गस्तथा पशुपतिर्मुने उग्रो भीमस्तथैवाग्रे वध दूरे वथावपि हन्ता चैव हनीयांश्च वृषश्च हरिकेशकः तारशम्भुर्मयोभूश्च शङ्करश्च शिव पार्यो तीर्थकु्योपार्य प्रतरणस्त मुने मुतर्यच तथा लभ्यष्टेण्य चतुर्दशाव चा। कथिता रुद्रदेवता सिकत्यश्च प्रवाह्यश्च तधेरिण्यस्तपोनिधे प्रपद्य किं शिलश्चैव क्षणयस्तदनन्तरं कपर्दीजपुलस्त्यंश्च गोष्ठ्यो गृह्यस्तथैव च तल्प्यो गेह्यस्तथा काठ्यो गह्वरेष्ठोरुदीपकः निवेष्ट्यश्चापि पान्तव्यो रथन्यशुक्य एव च हरित्यलोधालोप्याश्च उर्यूर्म्यै तथा मुने पयेयश्च पर्णशश्च तथा वगरुमाणकः अभिघ्ननाशिदुश्चैव प्रखिदन् किरिकास्तथा देवानां हृदयश्चैव द्वात्रिंशद्रुद्र देवताः वर्तते सा युधाप्राज्ञा नित्यं पञ्चादशावृतौ षोडशेण के पूर्वादीद्वातिन वीक्षिण विचिन्वथा निर्हतनाम का, का आमी वक्ता षोडशु स्थितई द्रै सहसु महारुद्रो ललिताज्ञा प्रवर्तक वर्त जगदा मृद्युक्ता शाले शकोके शतुद्रीय संख्या ये दे रुद्रा महाबलाः ललिताभक्ति सम्पन्नान् पालयन्ति दिवानिशम् अभक्तां ललितादेव्याः प्रत्युहैर्योजयन्त्यमी इद्धं दिक्पाला मुक्ताशालं समाश्रिताः सेवामेव वितन्वते अधमुक्ताख्यशालस्यान्तरे योजने शालो मारकदाभिख्यश्च दुर्योजनमुच्छ्रितः पूर्ववद्गोपुरादीनां संस्थानैश्च सुशोभितः त्रीदंड दहना चलया प्रोक्ता मंत्रिणी गृह विस्तरा गीदीचक्ररथेन्द्र पर्वा संडारसुरमयुद्धे ता देव्यस्तत्र जाग्रति सर्वास्थल्यो मरकदश्रेणिभिःखिता शुभाः हेमतालवनाढ्याश्च सर्ववस्तु समाकुलाः तत्र देव्य समस्ताश्च दण्डनाथा समश्रियः हलोद्धर्म संख्यातीतास्तालवृक्षा सञ्चरन्त्यपि सङ्ख्यातीतास्तालवृक्षा नवस्वर्णविचित्रिताः योजनायतकाण्ठाश्च दलैर्युक्ता विषङ्कटैः हेमत्व चोदि सुस्निग्धा सच्छाया फलभङ्गुराः आमूलाग्रं लम्बमानास्ताला हालाखाकुलाः हा। वरुतन्ते दण्डनाधाया प्रीत्यर्थं शिल्पिभिकृताः तं च तालरसापूरम् पीत्वा पीत्वा मदाकुलाः जृम्भिण्याद्याश्चक्रदेव्यो भैरवाहा। दुकाद्याश्च भैरवाः सप्तनिग्रहदेव्यश्च नृत्यन्ति मदविह्वलाः चतुर्विदिक्षुदण्डिन्या यत्र यत्र महादृशः पूर्वादि पूर्वादिदिगे देवी उन्मत्त सदृशवर्चस उन्मत्भरवी सर्वतो दिशं निवासो दंडनाधार त्वाभिमानिकः तस्यास्तु तस्तु से महापद्माटवीस्थले तत्कक्षादिदवीयस्त्वान् सेवार्थं तत्र तद्गृहः अधो मरकथाकारे शाले तत्सप्तयोजने प्रकारो विद्रुमाकारप्रादरर्यमपाटलः तत्र स्थलास्तु सकला विद्रुमैरेव निर्मिताः तद्वद्विद्रुमसङ्काश्यो नलिन ब्रह्मा नलिनविष्टरः ब्रह्मलोकात् समागत्य सार्धं सर्वैर्मुनीश्वरैः सदा श्रीललितादेव्या सेवनार्थमदृतः मरीचाद्यै प्रजासृग्भिर्वर्तते साकमब्धिप चतुर्दशापि विद्यास्ता उपविद्या सहस्रशः चतुष्षष्टिकलाश्चैव शरीरिण्यो महत्तराः प्राकारे विद्रुमाकारे ब्रह्मलोकसमाश्रिताः जगदा जगदामृद्ध्यै ललिता देवताज्ञया अथ विद्रुमशालस्यान्तरे मारुदयोजने माणिक्यमण्डपस्थाने परीदः सर्वतो दिशं वर्तते विष्णुलोकस्तु ललितास्सेवनोत्सुकः तत्र वैष्णवलोके विष्णुः साक्षात् सनातनः चतुर्खा दशथा चैव तथा द्वादशधा पुनः विभिन्नमूर्तिस्सदं वर्धते माधवः सदा पण्डासुरमहायुद्धे ये श्रीदेवी नखोद्भवाः दशावतारदेवास्तु तेऽपि माणिक्यमण्डपे पूर्वकक्षान्तरेभ्यस्तु तत्कक्षायां विशेषतः उपर्याच्छादनामात्रं माणिक्य दृषतां गणैः तत्र कक्षान्तरे देवशङ्गचक्रगदाधरः भिन्नो द्वादशमूर्त्या च पूर्वाद्याशा सुरक्षति जाम्बूनदप्रभश्चक्री पूर्वस्यां दिशि पश्चा नारायणशंगी नील जीमूदसनिभ इंदी वरदश्यामो गोविंदो दक्षिणे पाशे धन्वी चंद्रप्रभो महालुपंच आग्नेयामरविन्दाभो मुस्सली मधुसूदनः ज्वलनप्रभः वायव्यां वामनोवज्री तरुणादित्यदीप्तिमान् ईशान्यां पुण्डरी काभश्रीधरः पठिशायुधः समप्रभः। विुत्शो्यवाच्या दिशि मुद्गरी वेष्टते। सांगस्राक्रभ मणिक्यम्डपस्थन मनुम्य सर्वतो मुख्य इन्द्रगोपकसङ्काश्यः पाशहस्तोपराजितः दामोदरस्तु सर्वात्मा ललिताभक्तिनिर्भरः माणिक्यमण्डपस्थानं विलोमेन विवेष्टदे इदि द्वादशभिर्देहैर्भगवानम्बुजेक्षणः माणिक्यमण्डपगतो विष्णुलोके विराजते अथ नानारत्नशालान्तरे mm. मारुदयोजने सहस्रस्तम्भकं नाम मण्डपं सुमनोहरं नानारत्नैस्तुखजितं नानारत्नैरलङ्कृतं नानारत्नकृतशालस्तुङ्गस्तत्राभिवर्तते एका पङ्क्तिसहस्रैस्तु स्तम्भस्तिर्यप्रवर्तते तादृशाः पङ्क्तयो बह्व्यस्तम्भानान्तु चतुर्दिशन् उपर्याच्छादनं चापि पूर्ववद्रत्नदारुभिः शिवलोकस्तत्र महा जागर्ति स्फुरि शैवागमामूर्तिमन्त्रस्तत्राष्टाविंशति स्मृता नन्दिभृङ्गिमहाकालप्रमुखास्तत्र चोत्तमाः षड्विंशत्तत्त्वदेवाश्च गजवक्त्रा सहस्रशः शिवलोकोत्तमे तस्मिन् सहस्रस्तम्भमण्डपे ईशानः सर्वविद्यानामधिपश्चन्द्रशेखरः ललिताज्ञा पालकश्च ललिताज्ञा प्रवर्तकः ललितामन्त्रजापी च नित्यमानन्दमानसः सेव्या दृष्ट्या स्वभक्तानां ललितामन्त्रसिद्धये अन्तर्बहिस्तमः पुञ्जन्निर्भेदनपडीयसीं महाप्रकाशरूपां तां मेधाशक्तिं प्रकाशयन् सर्वज्ञः सर्वकर्ता च सहस्रस्तम्भमण्डपे वर्धमानो महादेव देवी श्री श्रीभक्तिनिर्भरः तत्चालाश्रि वर्त कुसंभव ब्रह्मांड ब्रह्मांडमहापुराणे उत्तरभागे हयग्रीवागस्त्य संवाद ललिताख्या दिखाला शिवलोकाथन नाम चतुस्त्रिंशोऽध्यायः ओ